हरि ओम् श्री सीता रामचन्द्राभ्यां नमः अथ श्रीमद् वाल्मीकि रामायणे अयोध्याखण्डे अष्ट सप्ततितम सर्गः शत्रुघ्नस्य रोष तेन कुब्जाय भूमौ विकर्षणम् भरतस्य आदेशेन तस्य मोचनञ्च अथ यात्रां समीहन्तम् शत्रुघ्नो लक्ष्मणानुज भरतम् शोकसन्तप्तम् इदम् वचनम् अब्रवीत् गतिर्य सर्वभूतानाम् दुःखे किम् पुनरात्मनः स्वराम सत्त्वसम्पन्न स्त्रिया प्रव्राजितो वनम् बलवान् वीर्य सम्पन्नो लक्ष्मणो नाम योग्यसौ किम् न मूचते रामम् कृत्वापि पितृनिग्रहम् पूर्वम् तु विग्राह्य समवेक्ष्य नयनयो उत्पथम् यः समारूढो नार्य राजावशम् गतः इति सम्भाषमाणे तु शत्रुघ्ने लक्ष्मणानुजे राग्द्वारे भूतदा कूब्ज सर्वभरणभूषित लिप्ता चन्ननुसारेण राजवस्त्राणि बिभ्रति विविधं विवधैतैतै भूषणे च वैकलादामभिश्चित्री अन्यै च वरभूषणे बभासे बहुभिर्बद्धा रज्जुभिनरि तां समीक्ष्य तदा द्वासो भुशम् पापस्य कारिणीम् गृहीत्वा करुणम् कूब्जाम् शत्रुघ्नाय न्यवेदयत् यस्या कृते वने रामो न्यस्तदेहश्च वप्ता सेयम् पापा नृशुंता च तस्य कुरु यथामति शत्रुघ्नश्च तदा ज्ञाय वचनम् भृशदुःखितः अन्तःपुरे चरत्सर्वान् इत्युवाच धृतवतः तीव्रम् उत्पादितम् दुःखम् भ्रातॄणाम्ये तथापितु यथा सेयम् कर्मण फलमशन्ताम् एवम् उक्त्वा च तेनाशु सखी जन समावृता गृहीता बलवत् कुब्जा तद्गृहम् अनादयत् सदा शुभ्रो च सन्तप्त तस्याः सर्व सखी जनः क्रुद्धम् अज्ञाय शत्रुघम् तै सर्वी जनह यो निशेषं नुनुक्रोशा बदला धर्म यशस्वनी कौसल्या चरण याम स ही नोस्ती ध्रुआ सच रोषेण संवीत चतुघ्शुशा विचकर्ष सदाज क्रोशंती पृथ्वी तले तस्याम् ह्याकृष्यमाणायाम् मन्थरायाम् तथस्तम् बहुविधम् भाण्डम् पृथिव्याम् तद् व्यशीर्यत तेन भाण्डेन विस्तीर्णम् श्रीमद्राज निवेचनम् अशोभत तदाभूय शारदम् गगनम् यथा सबली बलवत् क्रोधात् गृहीत्वा पुरुष कैक निर्भस्य बभाषे पुषम बचह तैर्वाच्ये पौषे दुख कैक दुखित शत्रुघ् संरण तम प्रेक्ष भरत क्रुद्धम शत्रुघ्नमिद्रवी अवध्याभूता क्षम्यता हन्याम हम इम पापा कैकीम् के दुष्टचारिणीम् यदि माम् धार्मिको रामो नासूयेन्मातृघातकम् इमामपि हताम् कूब्जाम् यदि जानाति राघवे तां च मां चैव धर्मात्मा नाभिभाषिष्यते ध्रुवम् भक्तस्यैव च श्रुत्वा शत्रुघ्नो सापादमूले कैकैया, मन्थरा निपपातः निश्वसन्ति सुदुःखार्ता कृपणं विललापः शत्रुघ्न विक्षेप विमूढसंज्ञां समीक्ष्य गोभ्यां भरतस्य माता शनैः समाश्वास यदा तूपां कौञ्चम् विलग्नाम् इव वीक्षमाणम् इत्यार्थी श्रीमद् रामायणे अयोध्याखण्डे अष्टसप्ततितमः सर्गः श्रीसीतारामचन्द्रार्वणमस्तु